अध्यात्मोपनिषत् शुक्लयजुर्वेदीय अध्यात्मोपनिषत् यत्रान्तर्याम्यादिभेदस्तत्त्वतो न हि युज्यते निर्भेदं परमाद्वैतं स्वमात्रमवशिष्यते ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ अन्धशरीरे निहितो गुहायामज मजयेको नित्यमस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन्यं पृथिवी न नवेद यस्याप शरीरं यो अपोऽन्तरे सञ्चरन्यमापो न विदुः यस्य तेजः शरीरं यस्तेजोन्दरे सञ्चरन्यं तेजो यस्य वायुशरीरं यो वायुमन्दरे वाय। सञ्चरन्यं वायुर्न वेद यस्य आकाशशरीरं य आकाशमन्दरे सञ्चरन्यमाकाशो न वेद यस्य मनःशरीरं यो मनोन्तरे सञ्चरण्यं मनो न वेद यस्य बुद्धिशरीरं यो बुद्धिमन्तरे सञ्चरन्यं बुद्धिर्न यस्याहङ्कारशरीरं योऽहङ्कारमन्तरे सञ्चरन्यमहङ्कारो न वेद यस्य चित्तं शरीरं यश्चित्तमन्तरे सञ्चरण्यं चित्तं न वेद यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे सञ्चरन्यमव्यक्तं न वेद यस्याक्षरं शरीरं योऽक्षरमन्दरे सञ्चरन्यमक्षरं न वेद यस्य मृत्युशरीरं यो मृत्यु मृत्युमन्दरे सञ्चरन्यं मृत्युर्न वेद स एष पात्मा दिव्यो देव एको नारायणः अहं ममेधि यो भावो देहाक्षादावनात्मनि अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्मनिष्ठया ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणं सोऽहमित्येव तद्वृत्त्या स्वान्यत्रात्म्यमात्मनः लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनं शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु स्वात्मन्येव सदा स्थित्या मनो नश्यदि योगिनः युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सर्वात्म्यमात्मनः निद्राया लोकवार्ताया शब्दादेरात्मविस्मृतेः क्वचिन्नवसरं दत्त्वा चिन्तयात्मानमात्मनि मादापित्रोर्मलोद्भूतं मलमांसमयं वपुः त्यक्त्वा चण्डालवद्धूरं ब्रह्मभूय कृती भव कडाकाशं महाकाश्य इवात्मानं परात्मनि विलाप्याखण्डभावेन तूष्णीं भव मुने। मुनेः स्वप्रकाशमधिष्ठानं स्वयं भूय सदात्मना ब्रह्माण्डमपि पिण्डाण्डं त्यज्यदां मलभाण्डवद चिदात्मनि सदानन्दे देहरूढा महन्धियं निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा यत्रैष जगदाभासो दर्पणान्धःपुरयथा तत् ब्रह्माकमिति ज्ञात्वा कृतकृत्यो भवानख स्वरूपमुपपद्यते चन्द्रवद्विमलपूर्णः सदानन्दःस्वयं प्रभः क्रियानाशाद्भवे चिन्तानाश्योऽस्माद्वासनाक्षयः वासनाप्रक्षयो मोक्षः सा सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनं सद्भावनादाढ्याद्वासनालयमश्नु प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः यथापकृष्टं शैवालङ्क्षणमात्रं न तिष्ठति आवृणोति तथा मायाप्राज्ञं वापि पराङ्मुखम् जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः समाधिनिष्ठतामेत्यनिर्विकल्पो भवानख अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा समाधिना विकल्पेन यदा द्वैदात्मदर्शनम् अत्रात्मत्वं दृढीकुर्वन्नहमादिषु सन्त्यजन् उदासीनतया तेषु तिष्ठेत्खडपडादिवत् ब्रह्मादिस्तम्भपर्यन्तं मृषा मात्रा उपाधयः ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्वयं ब्रह्मा स्वयं विष्णुस्वयमिन्द्रः स्वयं शिवः स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न स्वात्मन्यारोपिता शेषाभासवस्तु निरासदः स्वयमेव परं ब्रह्मपूर्णमद्वयमक्रियम् असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि निर्विकारे निराकारे निर्विशेषेऽभिधा कुतः द्रष्ट्रु द्रष्टृदर्शनदृश्यादिभावशून्ये निरामये कल्पार्णवयिवात्यन्तं परिपूर्णे चिदात्मनि तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् अद्वितीये परे तत्त्वे निर्विशेषे भिता कुतः एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् सुषुप्तौ सुखमात्रायां भेदकेनावलोकितः चित्तमूलो विकल्पोऽयं चित्ताभावेन कश्चन अधच्चित्तं समाधेयि प्रत्यग्रूपे परात्मनि अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः बहिरन्दः सदानन्दरसास्वादनमात्मनि वैराग्यस्य फलं बोधो बोधस्योपरधिः फलं स्वानन्दानुभवच्चान्दिरेशैवोपरदे फलम् तरा भावे निवृत्ति यद्युतरो पूफल निवृत्तिरनंदोपस्व मोपाधिजगद निःसवादिल्षण पर शबल सत्याध्यात्मक आलम्बनतया भाधि योऽस्मत्प्रत्ययशब्दयोः अन्धःकरणसम्भिन्नबोधसत्त्वं पदाभितः मायाविद्ये विहायैव उपाधि परजीवयोहो अखंडं सच्चिदानन्दं परं ब्रह्मविलक्ष्यते इत्थं वाक्यैस्तथार्थानुसन्धानं श्रवणं भवेद् युग्र्यासम्भावितत्वानुसन्धानं मननं तु तद् ताभ्यं निर्विचिकित्सेऽर्थे चेदशस्तापि तस्य यद् ध्यादृध्याने परित्यज्यक्रमाध्येयैकगोचरं निवाददीपवचित्तं समाधिरभिधीयते वृत्तयस्तु आत्मगोचराः स्मरणादनुमीयन्ते व्युद्धितस्य समुद्धिताः अनादाविहसंसारे सञ्चिधा कर्मकोटयः अनेन विलयं धर्मो विवर्धते धर्ममेखमिमं प्राहुसमाधिं योगवित्तमाः वर्षत्येष यथा धर्मा मृतधारा सहस्रशः अमुना जाले निःशेषं प्रविलापिदे समूलोन्मूलिते पुण्यपावाक्ये कर्मसञ्चये वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते करामलकमवद्बोधमपरोक्षं प्रसूयते वासनानुदयो भोग्ये वैराग्यस्य तदावधिः दयाभावो बोधस्य परमावधिः लीनवृत्तेरनुत्पत्तिर्मर्यादो परते स्तु स्थितप्रज्ञो यदिरयं यः ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ब्रह्मात्मनोश्चोधितयोरेकभावावगाहिनी निर्विकल्पा च च चिन्मात्रा वृत्तिप्रश्नेऽधि कथ्यते सा सर्वदा भवेद्यस्य सजीवन्मुक्त इष्यदे देहेन्द्रियेष्वहं भाव इदं भावस्तदन्यके यस्य नो भवद क्वापि स जीवन्मुक्त इष्यदे न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः प्रज्ञा यो विजादी सजीवन्मुईष्य सा साधु पूज्यनेीड्यने भवेद्यस्य समोद्य भा सजीवन्मुईष्य विज्ञातब्रह्मतत्व यहापू न संसृति अस्ति चेन्न स विज्ञादभ्रमभावो बहिर्मुखः सुखाद्यनुभवो यावत् तावत् प्रारब्धमिष्यते फलोदयक्रियापूर्वो निष्क्रियो न कुत्रचित् अहं ब्रह्मेदि विज्ञानात् कल्पको डिशदार्जितं सञ्चितं विलयं व्याधि प्रबोधात् स्वप्नकर्मवत् स्वमः सङ्गमुदासीनं परिज्ञाय नभो यथा न श्लिष्यते यदि किञ्चित् कदाचित् खडयोगेन सुरागन्धेन लिप्यते तथात्मोपाधियोगेन तद्धर्मे नैवलिप्यते लिप्यते दयात्पुराब्धं पुराब्धं कर्म ज्ञानान्ननश्यति अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवद व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः लक्ष्यं वेगेन निर्भरम् अजरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते तदात्मना तिष्ठतोऽस्य कुतःप्रारब्धकल्पना प्रारब्धं सिध्यति तदा यदा देहात्मना देहात्मभावो नैव्यष्टः त्यज्यदा मदः प्रारधकलना कल्पनाप्यस्य से भ्रा अध्यस्तस्य अध्य कुतस्तत्वस्य कुदो जनि अजादस्य से कुदो नाश प्रारब्धमसधकु ज्ञानेना ना समूल से लयो यदि तिष्ठत्ययं कथं देह इति शङ्खावधो जडान् समाधातुं बाह्यदृष्ट्या प्रारब्धं वदधि श्रुतिः न तु देहादिसत्यत्वबोधनाय विपश्चिदां परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् खनं चित्खनं नित्यमानन्दखनमव्ययं प्रत्यगेकरसम्पूर्णमनन्दं सर्वतोमुखम् अहेयमनुपादेयमनाधेयमनाश्रयं निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् सत्समृद्धं स्वदः सिद्धं शुद्धं बुद्धमनो स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितं ससिद्धः तिष्ठ निर्विकल्पात्मनात्मनि क्व गदं कुत्र लीनमिदं जगदर् अधुनैव मया दृष्टं नास्ति महदद्भुतम् किं हेयं किमुपादेयं किमन्यत्किम् किं विलक्षणम् अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे न किञ्चिदत्र पश्यामि स्वात्मनैव सदानन्दरूपेणास्मि स्वलक्षणः असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहं हरिः प्रशान्तोऽहमनन्दोऽहं परिपूर्णश्चिरन्दनः अकर्ताहमभोक्ताहमविकारोऽहमव्ययः शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः एतां विद्यामपान्तरतमाय ददधौ अपान्तरतमा ब्रह्मणे ददौ ब्रह्मा खोराङ्गिरसे ददौ खोराङ्गिरायक्वाय ददौ रायक्वो रामाय ददौ राम सर्वेभ्यो भूदेभ्यो ददा वित्येद निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् वेदा ॐ पूर्णमध पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिशान्तिशान्तिः हरिः ॐ तत्सद इति अध्यात्मोपनिषत्समाप्ता